ेवस्याः किंसविदः प्रसवे बृहस्पतिना वाजिदा वाचेमित्याह समितर्प्रसोद एव ब्रह्मणा वाजमुज्जयति देवस्याः किं सिदः प्रसवे बृहस्पतिना वाजिदा वरिषष्ठन्नागकम् बृहेजमित्याह समितर्प्रसोद एव ब्रह्मणा वरिषिष्ठन्नागकम् रोहति चात्वाले शर्कर्निमिदकम् अतो वाङ्गिरसु उत्तमासुवर्गम् लोकमायन् साक्षादेव यजमानस्वर्गम् लोकमेति आवेष्टयति वज्रो वैरथः वज्रेणैव दिशोऽभिजयति वाजिना पुंसामगायते अन्नम् वैवाजः अन्नमेवावरुन्धे वाचो वैश्वदेवेभ्योपाक्रामत् पद्मनस्पतेन्प्राविशत् भिः सर्वा वाचोदृ समाघ् परमा वा एषा वाच यादुन्दुभौ परम एव वाचावम् वाचमवृन्धे अथो वाच एवरुन्धे इन्द्रायवाचम् वदतेन्द्रम् वाचम् जापयतेन्द्रवाजमज इत्याह एषवाजेतरिहीन्द्रः योजने यामुज्जयति सप्तदश प्रव्याधानाजिन्धावन्ति सप्तदशग्रस्तात्रम् भवति सप्तश सप्तदश दीयन्ते सप्तदश प्रजापतिः प्रजापतेतात्यैः अर्वासिसप्तरसि वाच्यसेत्याह अग्निर्वा अर्वा बाजः सप्तिः आदित्यो बाजी एताभिरेवास्मै देवताभिर्देवरथम् जनक्ये पृष्टिवाहिनम् जनक्ये पृष्टिवाहे वै देवः देवरथमेवास्मै जनक्ये वाजिनो वाजम् तावदकाष्ठाम् गच्छतेत्याह स्वर्गो वै लोकः काष्ठाः स्वर्गमेव लोकय्यन्ते स्वर्गम् वा एते लोकय्यन्ते व्याजम् धावन्ते प्राञ्चो धावन्ते प्राणिवर्गो लोकः मन्त्रयते तस्मान्दाे छन्दोभिदेवेनाम् स्वर्गम् लोकम् गमयते प्रमायेते यस्माल्लोकाच्यवन्ते जिन्धावन्ते उदम् चावर्तन्ते अस्मादेव तेन लोकान् नयन्ति आमावाजस्य प्रसमोजकम् व्यादित्याह अन्नम् वैवाजः अन्नमेवावन्ते यथा लोकम् वा एत उज्जयन्ति याजिन्धावन्ते कृष्णम् कष्टम् वा दशर्थ्यः प्रयच्छति देवाजम् लोकमुच्चयन्ति तम् परिक्रियावरुन्धे हे कथा ब्रह्मण उपहरति हे कथैवम् दधाति देवा वोषधेष्वाजिमयोः सन्नेवाराणान्नैवारत्वम् नैवारस्वद्भवति एतद्वै देवानाम् परममन्नम् देवारा परमेणैवास्मान्नाम्ना भवति सप्तरथप्रजापतिः प्रजापदे क्षेरे भवति रुद्रमेवास्मिन् दधाति सर्पिष्मान् भवति मे धत्वाय बालहस्पत्यो वा एषेदया यो वाचपेयेन बालहस्पत्य एषयोः अश्वान्सरे क्षदः सृतश्चावघ्रापयति यमेव ते वाजम् लोकमुद्रयन्ति तमेवावरुन्धे अजीजपदवनस्पदे इन्द्रम् वाजम् विमुच्चध्वमिजम्पुञ्चति यमेव ते वाजम् लोकमिन्द्रियम् दुभयमुज्जयन्ति मेवावृन्ते तार्प्य यमानम् परिधापयति यज्ञो वै तार्प्यम् यज्ञेनैवैनगुम् समर्थयति दर्भमयम् परिधापयति पवित्रम् वै दर्भाः वाजम् वा एते ओलु वै वाजः यद्दर्भमयम् परिधापयति रुध्येभोरो एवम्भो नक्षित्ये सप्तदशात्र्यजोपभवते सप्तदशः प्रजापतेः प्रजापतेराद्यः तोपनश्चतुरश्रद्भवते द्वौ धूमम् च शालम् अमानेयमाहाः देवविदः प्रजापतिः समर्थ्यथो अमुमेवास्मै लोकमन्नवन्तम् करोति वासाभिर्वेष्टयति एषमे यजमानः यद्यूपः सर्वदेवत्यम् वादः सर्वाभिरेवेदम् देवताभिः समर्थयति अथो आक्रमणमेव तत्सयतिनः कुरुते स्वर्गस्य लोकस्य समष्ट्ये भावसमाजपथवीजानिहोति द्वादशमासाः संवत्सरः संवत्सरमेव प्रीणाति अथो संवत्सरमेवा स्मा उपदधाति स्वर्गस्य लोकस्य नमह्ये लो लो प्राणाः नाभिर्दशमे प्राणादेव यथा स्थानम् कल्पयित्वा स्वर्गम् लोकमेति एतावद्भे पुरुषस्य स्वम् यावदेवास्यास्ति तेन समसुवर्गम् लोकमेति सुमर्गेवागुमगन्मेत्याह सुवर्गमेव लोकमेति अमृता भूमेत्याह अमृतभिषुवर्गो लोकः प्रजापदेव प्रजाभूमेत्याह प्राजापत्यो वा अयम् लोकः अस्मादेव तेन लोकान्न इति समहम् प्रजयासंवयाः प्रजेत्याह आशितमेवैतामाशास्ते आशुपुटैर्भ्यन्ति अन्नम् बाल्यम् अन्नाद्येनैवेन समर्थयन्ति ऊषेऽर्भ्यन्ति एते साक्षादन्नम् साक्षादेवेन मन्नार्द्रेण समर्थयन्ति पुरस्तात् प्रत्यञ्चम् घ्नन्ति पुरस्ताभ्यप्रदेशेन मन्न मध्यते शेषदाघ्नन्ति शेषा हिन्नमद्यते बिग्भ्याघ्नन्ति विभ्य एव स्म अन्नाद्यवरुन्धते ईश्वरो एष वराषः योयुङ्लोहते यो हिरण्यमध्यमलोहते अमृतम् मे हिरण्यम् अमृतकुंसुवर्गो लोकः अमृत लोके प्रतिष्ठति शतमानम् भवति सदायः पुरुषः शदेन्द्रियः आयुष्वेवेन्द्रिये प्रतिष्ठति दि, पुष्ट्यैवा एतद्रूपम् यदजान्यान्वयोन्परिप्रजायते सप्ता मध्यवलोहति पुष्ट्यामेव प्रजनने प्रतिष्ठति सप्तान्नहोमाञ्जहति सप्त वा अन्नानि यावन्तेवान्नानि तान्नेवलुधे सप्तग्राण्यावोषयः सप्ता अन्याः वैरामवरुद्धे अन्नस्यान्नस्य जुहोजि अन्नस्यान्नस्यावरुद्धे यद्वाजपेयाज्यनवरुद्धस्याश्नीयात् अवरुद्धेण व्यर्थेद सर्वस्य तमपदानि जुहोति अनवरुद्धस्यावरुद्धे औदुम्बरेण श्रुवेण जुहोगे ओर्ध्वा अन्नपदुम्बरः ओर्जदेवान्नाद्यस्यावलुद्ध्ये देवस्यत्वा सविदप्पसपरित्याह सविदप्रसूदेवैनम् ब्रह्मणा देवताभिरभिषिञ्चते अन्नस्यान्नस्याभिषिञ्चते अन्नस्यान्नस्यावरुध्ये पुरस्ता प्रत्यञ्चमभिषुञ्चते पुरस्ताभ्यप्रदेशेन मन्न मद्यते शेषतोऽभिषिञ्चते शेषदाख्यन्न मद्यते आमुखादन्वश्रावयति मुखत एवास्मान्नाद्यम् दधाति अग्ने स्वासाम्राग्रे नाभिणिमेत्याह एष वा अग्ने स्तवः तेनैवेनजने इन्द्रस्य ब्रह्म वे देवानाम् बृहस्पतिः ब्रह्मणेवेनषिञ्चते स्वाग्रहाकश्चावदा नीजानि सत्पेभ्यवहरन्ते अमुदेर्लोकमन्नवन्तम् करोति सुराग्रहाकश्चानीजानि चिमेवदेर्लोकमन्नवन्तम् करोति अथोभैरे देवाभिषिक्ष्यते कुर्वदेवादिसृतः इन्द्रियस्यावरुद्ध्यै अविरक्ताभिप्राणस्वनेऽस्तुवदे अनियुक्तप्रजापतिः प्रजापतेराः वाजपते धर्माभ्यन्दिने अन्नम् वै वाजः अन्नमेवावरुन्ध्ये श्रीविष्णव देभस्तृतीयसवने यज्ञा वै विष्णः पशवश्विः अन्तमेवेन गः शिलै गमयति दृढतन्त्रेत्याः प्रजावेव प्रजानामेवैतेन शूयते दृढतमित्याह वनस्पतयो वेद्रो वनस्पतीनामेवैतेन शूयते भुवनतमित्याह यदा वेवन् भवति भुवनमगन्यैतमाहुम् भुवनमेवैतेन गच्छति अक्षुसन्ताक्षरतमित्याह अपामेवैतेन घृतस्य सूयते व्योमसदमित्याह यदा वेसीयाम्भवति व्योमागण्डिवेतमाहुः व्योमेवेतेन गच्छति प्रतिविषदम् त्वारिक्षतदमित्याह येषामेवेतेन लोकानागुम् सूयते तस्माद्वाजपे विनाकीन कञ्चन प्रत्यवरोहति अपि प्रतिदेवतानागुम् सूयते नाकशतमित्याह यदा वेवशेयान् भवति नागमगन्दिवैतमाहुः नागमेवेतेन गच्छति हे ग्रहाः पञ्चजनेनामित्याह पञ्चजनानामेवेतेन अपागौ समुद्वयसमित्याः अपामेवेतेन रथस्य दूयते सौर्यरश्मिकम् समाभि समित्या असुरकृत्वाय इन्द्रावहत्वा असुरान् पराभाव्य स्याम् प्रत्यागच्छत् हे पितरः प्रोर्वेद्यगच्छन् पितरेण यज्ञागच्छत् तम् देवाः पुनरयाजन्ता कमेभ्यो न पुनरजगः हेभ्युवण्णामहे अथः पुनर्दास्यामः अस्मभ्यमेदगोर्वेद्यक्रिया कमेभ्यः पुनरजदः तस्माः पितृभ्यक्वोर्वेद्यः क्रियते यत् पितृर्भ्यक्वोर्वेद्यः करोति पितृभ्य एव तद्दित्यम् निष्क्रियमानः प्रदमते स्वमाय पितर्वेदाय स्वधानवैत्याः पितरवेवासि तमपेचमवरुन्धे न प्रमीयमान आहेशतोमपीच इति इन्द्रियम् वेदामपेशः इन्द्रियमेव तामपेचमवरुन्धे एनेन्द्रेण द्वितीयाम् जायामभ्यश्नुते एतद्वै ब्राह्मणम् पुरावादश्रवदा विनाहम् क्रह्मे तस्मात् ते द्वे द्वेक्षरम् वेदाभिद्वितीयाम् जायामश्नुते अग्निरेकव्यवहनाय स्वधायमयित्याः ह एव वदनामग्निः हम् प्रेणाते स्राहुदेर्जुहोदे निर्णिदधारे षट्सम्पद्यन्ते षडद्वा ऋतवः रोने व्रीणादि अस्ति वाहिर्नवान् वेदान् मनुष्याः पितरा न प्रविपदे तिस्राहुलेर्जुदे निर्णिदधारे षट्सम्पद्यन्ते षडद्वा ऋतवः वेदेवाः पितरः ऋतोनेव देवान् क्लीन्पीणादि दे। मनुष्यापदे दे। सगदाच्छिन्नम् परिहृत् भवति सगदि बहि विदलः इतो लोके विदलः तानेव प्रीणादि फलावर्पदे क्ले गाहि विदलः ओष्मणो व्यापृत उपाहास्ते ऊष्मभागा ब्रह्मवादिना वदन्ति प्राश्या प्राश्नीयात् जन्यमन्नमद्यात् प्रभाय स्यात् यन्न प्राश्नेयात् अहमि स्यात् पुदर्भ्याविश्चेत अवध्येयमेव तन्नेव प्राशितन्नेव प्राशितम् वीरम् भावे पितरः प्रयन्तो हरन्ति वीरम् मा चलति रसािलत्ते हरणभागा हि पितरः निरवदयते उत्तरायभिमचिन्देत पितृणागत्येतविनेदीयः नमस्करोति नमस्कारो, नमस्कारो हि पितृढा नमावप्तवरसाय नमावक्पितशुष्माय नमावप्तजीवाय नमामपि पितलो मथायैः नमामपि पितलो मन्यवेः नमामपि पितरो घोराय पितरो, पितरो, पितरो नमो वः एतस्मिल्लोके स्थ यस्मानिस्तेन युवेऽस्मिल्लोके महान्तेन एतस्मिल्लोके स्थ यूयन्तेषाम् वसिष्ठा भूयास्तस्मिल्लोके अहम् तेषाम् वसिष्ठा भूया समित्याः वसिष्ठस्वनाम् भवति एवम् विद्वान् प्रजुर्भ्यः करोति देशमेव ऋष्याणाम् यज्ञः देवानाम् वा इतरे जज्ञाः तेन वा एतत्मिदलोकेतरति यत्प्रजुर्भ्यः करोति स येश्वरप्रमेतोः राजावत्य यच्च पुनरैति वैज्ञा वेत् प्रजापतिः सह पुनरैति न प्रमाणि भ्यः करोति हरेश्वर आर्तिमार्वाह प्रजापतिस्वारेनन्तरेत्याहोत्तयत्रापुनैते प्रजापतिरेवेणन्तयते आर्तिमाच्छमानः ओपरेण प्रजापतेनभ्यसृज्यन्ता देवाश्चासुराश्च तान्यजानात् दे। इमे इति दे दे दे। स देवानपुंशो न करोत् तानभ्यशुणोत् तान् पवित्रेणापुनात् तान् परस्तात् पवित्रशब्दग्रन्थान् ये दे। ग्रहा अपमन्य तद्ग्रहाणाम् ग्रहत्वम् देवतामानेता यजमानस्य गृहे गृह्यन्ते यद्ग्रहाः विदुषेण देवाः यस्यैवम् विदुषयेते कः लिख्यन्ते एषामेषामस्याहुतिः यजुपाकिंशुः सोमेन देवागस्तर्पयाने खलु वे सोमेण यजते यजुपाकिंशम् जुहोति सोमेनैव तद्देवागस्तर्पयति यत्र गच्छन्ति यक्षमथाम् जुहोति तेनैमानुरूपेणस्वर्गम् वा गमेति किम् एतदग्राहवीत्याहुरपात्राणीति यम् वा एतदग्राहवीर मर्मया इव एतान्यासन् तैर्देवान् व्यापदमगच्छन् एतानि ता मयापश्यन् तान्यकुर्वैर्वेदेव व्यापदमगच्छन् या निभाक्त्राणि भवन्ति गच्छति यानि दारुमया निभाक्तानि भवन्ति अमुदयर्लाकमभिजयते यानि मन्मयानि इमेवदैर्लाकमभिजयते ब्रह्मवादिना वदन्ति काष्ठदस्य स्थाने सामग्रहने मे पश्चिमनप्र तस्यानेते स्तना आसन् ज्ञम् वे पृश्नेः कामादित्या आदित्रिकस्थाल्या चतुष्पदः पशोदस्ताले भवते चतुष्पदेवतया पशोन इजमान इमान्द्विः तामिन्द्रमुक्षाल्येमदुहदे यदुच्छस्थाले भवते इन्द्रियमेवतया इदमान इमान् दुः ताम् विश्वे देवाः क्रेण स्थाल्याक्रन् यदा क्रेण स्थाले भवति ऊर्जमेव तयायजमान इमान्दुहे ताम् मनुष्याः ध्रुवस्थाल्यायुलदुःख्रन् यद्ध्रुवस्थाले भवति आयुरेवतयायजमान इमान्दुहे स्थाल्या गृह्णाति वायव्येण जुभवति तस्मादन्नेन पात्रेण पशोम् दुहन्ति प्रतिगृह्णन्ते अथो व्यापदमेव तद्गजमालो गच्छति विभगुम् सुरामश्मिना अमृता वा सुरेभस्पति इन्द्रम् कर्म स्वावदम् पुत्रमिव विकराश्मिनोभा इन्द्रावदम् कर्मणा दगुम्सनाभिः यत्स्वरामम् विपि पश्यतीभिः अहाव्यग्ने हविधास्येते सुजीवघृतम् च मोयि वसोमः वादसनिगम् लयिमस्मे सुवीरम् रसस्कन्धे बृहन्तम् यस्मिन्नश्वासविभासमुक्षणः असा मेषा अवसृष्टा स आहुताः कीलानपेशावपृष्टाय वेधले हृदामतिञ्जनयचारुमग्नये नानाहिवाम् सदोमिदम् क्षाथाम् परमे व्योमन् पुरात्मसि शुष्मणे सोमजेधः मावाहिकंसे स्वाय्यानिमाविशन् यदत्र शिष्टगौ रसिनः सुतस्य यदिन्द्राक्ष्यतीभिः अहन्तरस्य मनसा शिवेन सोमगौ राजानमिन भक्षयामि द्वे ताभ्याविदम् विष्टम्भुवनकम् समेते अन्तरापूर्वमपरम् च गेतुम् यस्ते देववर्णगायत्रच्छन्धापादः अनन्तरेतेनावहिरे यस्ते देववर्णप्रष्टुप्न्दास्पाशः अनन्तरेतेनावहिरे यस्ते देववर्णनकलीच्छन्दाःपाशः तन्त्रेतेनावयदे स्वभगवानेतस्य राज्यमादत्ते यो राजासन् राज्यो वासो मे लगिनते देवसु वामेतानि हवेषि भवन्ति एतावन्तो मे देवानागम् सभाः हरे वास्मै सभान् प्रयच्छन्ति हरेणम् पुनःस्वन्दे राज्याय देवसो राजा भवति दे। भागम् मित्राय वरुणाय चाग्निहोत्रे वा एतस्य निषेधते यस्यात्रे निषेधते तामुत्थापयेत उदस्थामेवास्मामुत्थापयति आयुल्यज्ञमदावधादित्याह आयुलेवास्मिन् दधाते निन्द्राय के भागम् मित्राय वरुणायुजे यथायजदेवैतत् दे। अवर्त्यम् वा एभेतस्य पात्मानम् परीक्षानि विधेयते यस्याः ज्ञः कृपदृष्टानिषेधते यस्याज्ञात् अवर्त्यमेवास्मिन् आत्मानम् ्यदृष्टा दक्षिणा दीयते पृथिवीम् वायः प्रविशति यस्याग्निभाष्यमानग्निस्कन्दति यदर्जग्धम् पृथिवीमसक्ता यदोषधेरप्यसदर्जलावः पयो गृहेषु पयोग्भिजासो पयो वत्सेषु पयोस्तु तन्मयीत्याह पयरेवात्मन् गृहेषु पशुषु सत्ते अवौपधिषि अग्भिरेवेणोति योगै यज्ञस्याक्षेनात्रगंसम् सृजे उभयैदेतस्याक्षदः आक्षति खल् एतदज्ञहोत्रम् यद्दुःख्यमानग्निस्कन्दते यदभिदुःख्यात् आर्तेनात्तस्य च गुंसृजे तदेव यादृक् होतव्यम् होगव्यम् अनात्येनैवात्म यज्ञस्य निःस्करोति यद्यद्दुलस्य स्कन्दे यत्तदो हत्वा पुनरेयात् यज्ञम् विच्छन्द्यात् यत्र स्कन्देत् तन्निहद्य पुनर्गृह्णीयात् यत्रैव स्कन्दति अथान्याम् दुग्धापुरनुभवितव्यम् अनाहर्तेनैवार्थम् यज्ञस्य निष्करोति दिवा एतस्य यज्ञश्चिद्य यस्याः अग्निभोत्रेभ्यश्चिस्मान् तदा धावे रुद्रः खलु वा एषः हे अग्निः यद्गामन्मत्या वर्तये रुद्राणि पशुरपि यद्ध्यात् अपशुर्यजमानः अनाद्यमज्ञे लापः अनाद्यमाभ्याममिद्यात् कारिहपत्याद्भस्मादाय इदम् व्यष्टमिदक्रमयति वैष्टव्यम् व्यत्याः यज्ञो वे विष्णुः यज्ञेनैव यज्ञकम् सन्तनाति भस्मदा पदमपि परभ्रान्त्यैः विना एतस्याः मनीया कारिकपत्यम् कामयते निकादिकव्याः वनीयम् यस्याग्निमधृतम् सोऽचते दर्भेण हिरण्यम् प्रवध्य पुरस्ताद्धरेत् अथाग्नि तथाग्निहोत्रम् यद्धिरण्यम् पुरस्ताद्धरते ज्योतिर्भै हिरण्यम् ज्योतिरेवैनम् पश्चन्दरते यदग्निम्भरथाग्निहोत्रम् प्रणयते ब्राह्मणार्जयत् ब्राह्मणो वे सर्वदाः सर्वा देवेण देवताभिरुद्धरति अग्निहोत्र हृतमेव हतमनु अन्तम् वा येष आत्मनो गच्छति यस्ताङ्गमेष यज्ञस्य गच्छति यस्याज्ञमनुद्धृतकं सूर्योऽभिनिम् रोचते पुनः समन्यजहोजे ैवन्तै यज्ञस्य निष्करोति वर्णो वा एतस्य यज्ञम् गृह्णाति यस्याग्निमनुद्भृतकम् सोऽभ्योऽभिरिम् रोचते सर्ववेदम् तेनैव यज्ञम् निष्क्रीड्यते निवा एतस्याः वनीयो गार्घपत्यम् कामयते निगारुपत्याः वनीयम् यस्याग्निमनुद्भुतकम् चतुर्ग्रहेदमाज्यम् पुरस्ताद्धरेत् अथाग्निहोत्रम् यदाज्यम् पुरस्ताद्धरति तद्वाग्ने यदाज्यम् प्रियेण समर्थयतिहरत्यथाग्निहात्रम् भागधेय नैव प्रणयति ब्राह्मणार्षेय उद्धरेत् ब्राह्मणोऽपि देवता सर्वा देवताः सर्वाभिदेवेयम् देवताभिरुद्धरति दे। पराजेवा एतस्मै तेभ्यति दे। यस्या क्रमभ्यतकंसो निजोभिरे केचना विषदाम् इत्यम् देवेऽभिरन्विघम् देवेऽभ्या वसुमत्तमग्यस्वाहेन प्रत्यम्निषद्याज्येन विभुयात् प्रेवास्मै विभासयति अर्जहाक्रमपसाध्यातमिदोरासीत रतमेव हतमनम् अन्तम् वा एषात्मनो गच्छति यस्ताम्यजे अन्तमेषयज्ञस्य गच्छति यस्याग्रमनद्धृतकम् सोऽव्योभ्युजयते पुनः समन्यजुहोति अन्ते दैवान्त यज्ञस्य निष्करोति विद्वो वा एतस्य यज्ञम् गृह्णाति यस्याग्रमनद्धुतकम् सोऽव्योभ्युजयति मेत्रम् तरम् निर्वमेत तेनैव यज्ञम् निष्क्रीडेते यस्याः वनेयेनद्वादे कारिहवत्यमुद्वादे यदाह वनेयमनद्वाप्यकारिहवत्यम् बन्धे विच्छात् भ्रातव्यमस्त्वै जनयेत् यज्ञैयज्ञस्य वास्तव्यम् क्रियते तदा रुद्रोपचरते यज्ञोपमन्नपश्चेत् वास्तव्यमद्यमुपासेत रुद्रास्य पशोम् धातुकः स्यात् आहवनीयरुद्राच्य गाहिपत्यम् बन्धयत् इदप्रसमञ्जज्ञे अग्निः स्वाद्योदाः सगायत्रया कष्टभाजगत्या देवेभ्यो अव्यम् वहत प्रजानन्नि छन्दोभिरेवेणस्वाद्यो ने प्रजनयते गाहिहपत्यम् वन्थते दारिकपत्यम् वा अन्वाहिदार्गे पशव उपतिष्ठन्ते सैरुर्गायते तदनुभजोः क्रामन्ते इषेरयेन सहसेद्युम्नायत्यायेत्याह पशुवो वैरणिः पशुदेवास्मैरवयति सारस्वतोत्सव समिन्धातामित्याहसामेवै सारस्वतामुत्सवोः ै समिन्धे सम्राट विराटेत्याह रसन्तरम् वै सम्राट बृहद्विराट् ताभ्यामेवैनम् समिन्धे वद्रो वै शक्रम् वज्रो वा एतस्य यज्ञम् विक्षिणत्ये यतस्यानो पार्थो वा नराज्ञीयादि Hmm! े पूर्वम् प्रथमम् पदकम्भिरे सूर्यस्य रश्मीनन्वा तदा न तत्र सन्नस्तमत्यावाचमत्येति पूर्वे नैवास्तयज्ञेन यज्ञमनुसन्तनोति तमग्े सप्रथाशीर्त्याः अग्निः सर्वा देवताः देवतादेव यज्ञकम् सन्तनोति अग्ने प्रसिकृते पुरोडाचमष्टाजपालम् निर्भवेन अर्गमेवस्त्वेन भागधेनोपधावने स एव यज्ञम् पन्थामभिनयने अनड्वान् दक्षिणा वहेत्येन समध्ये यस्य प्रातःस्तफले सोमाभ्यन्दितकम् समनम् कामयमालोभ्यते गोबद्धैरु मरुताभि कुर्वन्ति हिनस्त्य सन्ध्यशीनम् सन्धेव खलु बालेतत् यत्सवनस्यादिच्यते तद्भयत्पदेश कुर्वन्ति सन्धय शान्ति गायत्रगुम् साम्भवति पञ्चदशस्तोम तेनैव प्रातः समनान् नयन्ति फलोत्पदेश कुर्वन्ति तेनैव माभ्यन्ति समनान् नयन्ति होधश्च मसमनोन्नयन्ते होधानुषकंसति वैज्ञकम् समादधाति यत् समाभ्यम् आदित्यन्त गौरवेदकम् साभवति अतिरिक्तम् वे गौरवेदम् अतिरिक्तम् यत्समनस्यातिरिच्यते अतिरिक्तस्य शान्त्यै सौर्ये च कुर्वन्ति यस्यैवादिक्तस्य समनस्य कामेनातिरिच्यते तेनैवैनम् कामेन समर्थयन्ति तेनैव माभ्यन्दिना समनान् नयन्ति सप्तदशो तेनैव तृतीयन्ति भोतश्च मुसमनोन्नयन्ते होतानुसगुंसे मध्यत एव वेदुंसमादधाति यस्य तृतीयवने सोमो निरुच्येत उक्षम् कुर्वेत यस्योक्षे दरिक्षेत अतिरात्रम् कुर्मी यस्यादिरात्रे दयुच्यते तद्वैदुष्प्रज्ञानम् यजमानम्ब एतत्पशव आसा क्रियन्ति बृहत्सानुभवेत् बृहद्बालिका लोकान्दाधार बालिकदाः पशवः बृहदेवास्मै पशोन्दाधार <laughs> शिपविष्टवदेषु कुर्वन्ति शिपविष्टो वे देवानाम् पुष्टम् पुष्टे वै न समर्थयन्ति भोदश्च मसमनोन्नयन्ते भोदानुषकुंसदे मध्यत एव यज्ञकम् समादधादे एकैकोके जनता याविन्द्रः एकम् वा एताविन्द्रमभिषगंसरुतः योद्दोषकुम् सुनृतः प्रजापजरुकारयते यज्ञः यस्य ग्रामा नोदन्ताः अन्यतरम् वा एत सकम्सन्मतो निर्वक्षति ओर्वेणापसृत्या देवदायत्याहुः ओर्वापसदश्च वे श्रेया भवते ये च मन्त्याग्यानि भवन्त्यभिजत्यै मरुत्पदेपदः मरुदामे देवानामपराजितमायतनम् देवानामेवपराजित आयतने ते उभयबृहत्यथमन्तरे भवतः इयम् वा परसन्तरम् असो गृहदे आभ्यामेव मन्तरेति बालश्चमदश्च प्राणाच्च बाणाच्च दिवश्चपृशव्याश्च सर्वस्माद्वित्ताद्वेद्यानात् अभिवक्ता ब्रह्मदामम् भवति स्वर्गस्य लोकस्याभिवृत्त्यै अभिजद्भवने स्वर्गस्य लोकस्याभिजित्यै विश्वजद्भवने विश्वस्य युक्त्यै यस्य भो यागुंसो यज्ञहो स देवतावृन्तरे यद्यग्निष्टामः स्वामः परस्तात् स्यात् वेद यद्युः स्यात् अतिरात्रम् गुर्वेद यद्यभिरेवस्य देवता वृन्ते योगे छन्दोभिरभि भवति तथोरभि भवति समे सम्वेषोपवेषः छन्दोभिरेवास्य छन्दाकस्य भवति इष्टर्गोमारिजामद्धर्यः इष्टर्गः खलु वेगोर्गोष्टोः क्षीयते प्राणाबाणो मृत्योमित्याह बाणाबानयोरेव श्रयते प्राणाबाणो माहाशिष्टमित्याह अयम् पुरायः प्राणाबाणो जहितः आ किम्वा एते नयन्ति एताम् दीक्षानाम् प्रमीयते अयदभवद्गेयः क्रोरगतामवेषाम् लोकः स्यात् आहरदभेदिब्रूयात् तम् दक्षिणतो भेद्यै निधाय सर्पदाज्ञिणाभ्यस्तयोः यम् वे सर्पदो राज्ञी अस्यादेवैनम् परिधरते व्यर्थन्तदित्याहुःस्तमिति होतात्मधमप्राचीनावेदेव जालीयम् परीयात् ब्रवन् सर्पराज्ञीनाङ्गीर्त्रयेत् उभयो देवेन लोकयोः परिजनति अथो सुमम् देवेन अथो न्येवास्मैपदे त्रिःपरियन्ते लोकाः येभ्य देवेन लोकेभ्यो सुपदे त्रिप्नः परियन्ते षट् सम्पद्यन्ते षट्वा ऋतवः ऋतुभिरेवेण धुमते अग्नायोगम् शिपमधैरिवदम् कुर्वीरन् रसन्तरसामेषाकुम् सोमः स्यात् आयुरेवात्मम् दशते अथोपात्मानमेव विजहतोयन्ति असूर्यम् वा एतस्माद्बन्धम् कृत्वा अथवा वेद्यमपक्रामन्ति यस्य लोपो विरोहति त्वाष्टम् बहु रूपमालभेन अष्टावे रूपाणामीशे ेव लोपानामीशे सोऽस्मिन् पशोन् वेद्यम् यच्छति नात्मात्मसवो वेद्यमपक्रामन्ति आत्तिम्बा एके लीयन्ति येषाम् देवनामज्ञद्वायते राहवणीयमुद्वायेत् दे, दे, व्यक्तम् मन्थेत् ऋच्छिन्दात् भ्रातव्यमस्ते जनयेन राहमलीय उद्वायेन आग्नेयेत् आग्ने उद्वारेत् गारिकपत्यानुरेत् यद्गारिकपत्यमुद्वारेत् अत एव पुनर्मेत् आत्मवावसदिनये यत्र खलु केशील उत्तमम् पश्यन्ति तदेनमिच्छन्ति यस्माद्दालोरुद्वारेत् एषा वा अग्ने प्रियातनोः पित्रमुखः प्रियेवीम् तनुभा समर्थयति भारुपत्यम् वन्थति भारुपत्यो वा अग्नेर्योनिः स्वदेवेन योनेहति यस्य समोपदश्चेत् स्वर्णकम् हिरण्यन्वेधा विच्छिद्य प्रियन्यथा भिषणोति सोमम् जुहोति सोमस्य वा अभिषोजमानस्य प्रियातनोदर्क्रामर्णकम् हिरण्यमभवत् यत् सुवर्णकम् हिरण्यम् कुर्वन्ति प्रियदेवेन तदुपासमर्थयन्ति यस्याः क्रीडकम् आ नारागश्च फाल्गुणानि चाभिषुयात् रायप्रीयुंसा ममाहरं सः परापदत् ता राजा अभवन् इन्द्रावस्य वर्गः परापदत् तानि फाल्गुणान्यभवन् अशममेभागुणानि अशव सोमो राजा यदा ीनाश्रेण स्वामस्याजये दक्षिणान्द्रेभ्यः स्वामीयात् वैद्येनैवमिच्छति सैवप्रायश्लिक्तिः भ्यो वा देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमा गुरदे यस्तत्रा गुरदे यदा वाङ्कै गुरुणः यावदस्य वित्तम् सर्ववेदेन येन सर्वपृष्ठा सोमस्यात् सर्वाभ्यदेव देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमा पवित्रवद्रेण पुना शुक्रेण देनेवर्तिर मंत्र ब्रह्मदेर पुने महाभ्याम् देव सवितः पवित्रेण सवेन च इयम् ब्रह्म पुणेमहे वैश्वदेवे पुनदे व्यागादे यस्यैवक्मेस्तनवेदपृष्ठाः अजामदन्दस्य समाद्येषु अयज्ञस्यामदयो वैश्वानधर्मापुणाद् बाणप्राणेन पुणीताभिः बेयम् देवभिः अर्गेदक्षेरे पुनाहि वा येन देवा अपुनता हेनापो दिव्यङ्कशः येन दिव्येन ब्रह्मणा इदम् ब्रह्म पुणीमहे यः पावमाने लब्ध्येतिभृतकण्डसम् सर्वगन्धभूतमस्मादिमादृश्मना भावाण्ये यद्यति एव सम्भरणमसं तस्मै नरपतियेव क्षेत्रुदत्तमोदकम् भावाण्ये स्फस्तयलेह सुधाभियशपदेह एव सम्बधार्थः ब्राह्मणे सबदनगीतां भावाण्ये कृतिसंतनः बललोकं श्राहम कामान् सवर्ध्यन्तुनः देवैः श्रेष्ठा भवताः पवित्रेण आत्मानम् पुनर्देशदा तेन सहस्रधारेण पापमान्यर्पुणन्द्वरापत्यम् पवित्रम् शतोद्यामगम् हिरन्वयम् तेन ब्रह्मविदो वयम् ओदम् ब्रह्म भवेमहे इन्द्रस्वरेजे सहमापुनादौ सोमस्पस्त्याभरणश्रमे च यमो राजाः प्रवणाभिः दा दा पुनादमा दातवेदामोर्दयम् चापुनादौ